अथ चतुःपञ्चाशः सर्गः ते तस्मिन् महावृक्षे उषित्वा रजनीम् शुभाम् विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे यत्र भागीरथीम् गङ्गाम् यमुनाभिप्रवर्तते जग्मुस्तम् देशमुद्दिश्य विगाह्य सुमहद्वनम् ते भूमिभागान् विविधान् देशाम् शापि मनोहरान् अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशस्विनः यथा क्षेमेण सम्पश्यन् पुष्पितान् विविधान् द्रुमान् निर्वृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् प्रयागमभितः पश्य सौमित्रे धूममुत्तमम् अग्नेर्भगवतः केतुम् मन्ये सन्निहितो मुनिः नूनम् प्राप्ता स्म सम्भेदम् गङ्गायमुनयोर्वयम् तथा हि श्रूयते शब्दो वारिणोर्वारिघर्षजः दारूणि परिभिन्नानि वनजैरुपजीविभिः छिन्नाश्चाप्याश्रमे चैते दृश्यन्ते विविधा द्रुमाः धन्विनौतौ सुखम् गत्वा लम्बमाने दिवाकरे गङ्गायमुनयोः सन्धौ प्रापतुर्निलयम् मुनेः रामस्त्वाश्रममासाद्यत्रासयन्मृगपक्षिणः गत्वा मुहूर्तमध्वानम् भरद्वाजमुपागमत् ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ सीतयानुगतौ वीरौ दूरा देवावतस्थतुः सप्रविश्य महात्मानमृषिम् शिष्यगणैर्व्रतम् संशितव्रतमेकाग्रम् तपसा रामः सौमित्रिणा सार्धम् सीतया न्यवेदयत चात्मानम् तस्मै लक्ष्मणपूर्वजः पुत्रौ दशरथस्यावाम् भगवन् रामलक्ष्मणौ भार्या ममेयम् कल्याणी वैदेही जनकात्मजा माम् चानुयाता विजनम् तपोवनमनिन्दिता पित्रा प्रव्राज्यमानम् माम् अयमन्वगमभ्राता वनमेव धृतव्रतः पित्रा युक्ता भगवन्प्रवेक्ष्यामस्तपो प्रवेक्ष्यामस्तपोवनं धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः तस्य तद्वचनम् राजपुत्रस्य धीमतः उपानयत धर्मात्मा गामर्घ्यमुदकम् ततः नानाविधानन्नरसान् वन्यमूलफलाश्रयान् तेभ्यो ददौ तप्तपावासम् चैवाभ्यकल्पयत् मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः राममागतमभ्यर्च स्वागतेनागतम् मुनिः प्रतिगृह्यतु तामर्चामुपविष्टम् स राघवम् भरद्वाजोऽ ब्रवीद्वाक्यम् धर्मयुक्तमिदम् तदा श्रुतम् तव मया चैव विवासनमकारणम् अवकाशो विविक्तोऽयम् महानद्योः समागमे पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम् एवमुक्तस्तु वचनं भरद्वाजेन राघवः वा। प्रत्युवाच शुभम् वाक्यम् रामः सर्वहिते रतः भगवन्नित आसन्नः पौरजानपदो जनः सुदर्शमिह माम् प्रेक्ष्य मन्येऽहमिममाश्रमम् आगमिष्यति मां मन्ये माम् चाभिप्रेक्षको जनः अनेन कारणेनाहमिह हा वासन्न रोचये एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् रमते यत्र वैदेही सुखार्हा जनकात्मजा एतच्छ्रुत्वा शुभम् वाक्यम् भरद्वाजो महामुनिः राघवस्य तु तद्वाक्यमर्थग्राहकमब्रवीत् दशक्रोश इतस्तातगिरिर्यस्मिन्निवत्स्यसि महर्षिसेवितः पुण्यः पर्वतः शुभदर्शनः गोलाङ्गोलानुचरितो वानरर्क्षनिसेवितः चित्रकूट इति ख्यातो गन्धमादनसन्निभः यावता चित्रकूटस्य नरः कल्याणानि समाधत्तेन पापे कुरुते मनः ऋषयस्तत्र बहवो विहृत्य शरदां शतम् तपसादिवमारूढाः कपालशिरसा सह प्रविविक्तमहम् मन्ये तम् वा सम्भवतः सुखम् यः वामनवासाय वस राममया सह स रामम् सर्वकामैस्तम् स भार्यम् सह च भ्रात्रा प्रतिजग्राहर्षयन् तस्य प्रयागे रामस्य तम् महर्षिमुपेयुषः प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः सीता तृतीयः काकुत्स्थः सुखोचितः भरद्वाजाश्रमे रम्येताम् रात्रिमवसत्सुखम् प्रभातायाम् तु शर्वर्याम् भरद्वाजमुपागमत् उवाच नरशाद्दूलो मुनिम् ज्वलिततेजसम् शर्वरीम् भगवन्नद्य सत्यशील तवाश्रमे उषिता स्मोह वसति मनुजानातु नो भवान् रात्र्याम् तु तस्याम् युष्टायाम् भरद्वाजोऽ ब्रवीदितम् मधुमूलफलोपेतम् चित्रकूटम् तव राममहाबला नानानगगणोपेतः किन्नरोरगसेवितः मयूरनादाभिरतो गजराजनिषेवितः गम्यताम् भवता शैलश्चित्रकूटः सविश्रुतः पुण्यश्च रमणीयश्च बहुमूलफलायुतः तत्र कुञ्जरयूथानि मृगयूथानि चैव हि विचरन्ति वनान्तेषु तानि द्रक्ष्यसि सरित्प्रस्रवणप्रस्थान्दरी कन्दर निर्झरान् चरतः सीतया सार्धम् नन्दिष्यति मनस्तव प्रहृष्टको यष्टिभकोकिलस्वनैर्विनोदयम् तम् च सुखम् परम् शिवम् मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम् इत्यार्षे श्रीमद् आदिकाव्ये अयोध्या चतः पंचाश